श्रीहरये नमः अथ षोटसोऽध्यायः श्रीशुक उवाच एवं पुत्रेषु नष्टेषु देवमाता अदितिस्तथा हृते त्रिविष्टपे दैत्ये पर्यतप्यत् अनातवत् ये गता कश्यपस्तस्याश्रमं भगवानगात् निरुत्सं निरानन्दं सा मधेर्विविरतश्चिरात् सपत्नीं दीनवधनां कृतासनपरिग्रहः सभाजितो यता न्यायम् इदमाह कुरुद्वहा <laughs> अप्यभद्रं न विप्राणं भत्रे लोके धुनागतं न धर्मस्य न लोकस्य मृत्योश्चन्धानुवर्तिनः अपि वा कुशलं किञ्चित् गृहेषु गृहमेदिनी धर्मस्य अर्थस्य कामस्य यत्र योगो ह्ययोगिना अपि कुटुम्बाशक्तया त्वया गृहात्पूजिता याता प्रत्युत्थानेन वा क्वचित् गृहेषु येष्वतितयो नार्चिता शलिलैरपि यधि निर्यान्ति ते नूनं फेरुराजगृहोपमाः अभ्यग्नयस्तु मेलायां त्वयोद्विग्नधिया भद्रे प्रोक्षिते मयि कर्हिचित् यत्पूजया कामदुःखान् याति लोकान् गृहान्वितः ब्राह्मणोऽग्निश्च वै विष्णो सर्वदेवात्मनोमुखम् अपि सर्वे कुशलिनस्तव पुत्रामनस्विने लक्षये स्वस्थमात्मानम् भवत्यालक्षणैरहम् अतिथिरुवाच भद्रं द्विजगवा ब्रह्मन् धर्मस्यास्य जनस्य च त्रिवर्गस्य परं क्षेत्रं गृहमेतिन् गृहा इमे अग्नयोतितयो भृद्या बिशवो ये सर्वं भगवतो ब्रह्मन् अनुद्यानान्तरिष्यति को नु मे भगवन्कामो न सम्पत्येतमानसः यस्या भवान् प्रजात्यक्ष एवं धर्मान् प्रभाक्षते तवैव मारीच मनःशरीरजान् प्रजायिमा सत्त्वरजस्तमोजुषः समो भवां स्तासु अत असुरादीशुतो प्रभो तथा विभक्तं भजते महेश्वरः तस्माती स भजन्त्य मे श्रेयश्चिन्तय सुव्रत हृतश्रियो हृतस्थानान् परैर्विवासिता साहं मग्ना व्यसनसागरे ऐश्वर्यं श्रीर्यशस्तानं कृतानि प्रबलैर्मम यथा तानि पुनः साधो प्रभत्येरन्महात्मजाहां तथा विदेहि कल्याणं धिया कल्याणकृत्तमा उवाच एवमभ्यर्तितो दिद्यां कस्तामाकस्मयन्निव अहो मायाभं विष्णो स्मेहबद्धमिदं जगत् क्व देहो भौतिको नात्मा क्व आत्मा प्रकृतेः परहान। कश्यके पतिपुत्राध्यात् मोह एव हि कारणम् उपतिष्ठव पुरुषं भगवन्तं जनार्दनं सर्वभूतगुहावासं वासुदेवं जगद्गुरुं सभिधास्यति ते कामान् हनिर्दीनानुकम्पनः अमोघा भगवद्भक्तेर्नेतरेतिमतिर्ममा अतिथिरुवाच केनाकं विदिना ब्रह्मन् उपस्थास्ये जगत्पतिं यथा सत्यसंकल्पो, सत्यसङ्कल्पो आदिसत्वं द्विजश्रेष्ठ विधिं तदुपधावनम् आसुतुष्यति मे देव सीधन्त्याः सखपुत्रकैः कश्यप उवाच एतन्मे भगवान् पृष्ठन् प्रजाकामस्त्यपद्मजः यदाहते प्रवक्ष्यामि व्रतं केशपतोषणं भाल्गुणश्यामले पक्षे द्वादशाखम्पयोव्रतः अर्चयेतरविन्दाक्षं भक्त्या परमयान्वितः दिनीवाल्यामृधा लिप्य स्नायात् क्रोढविदीर्णया यदि लभ्येत वै श्रोतस्येतं मन्त्रमुदीरयेत् त्वं देव याति वराहेण रसायस्थानमिच्छत उद्धृतासि नमस्तुभ्यम् पाप्मानं मे प्रणासय निर्वर्तितात्मनियमो देवमर्चेत्समाहितः अर्चायां स्तण्डिले सूर्ये जलवग्नौ गुरावपि नमस्तुभ्यं भगवते पुरुषाय महीयसे सर्वभूतनिवासाय वासुदेवाय साक्षिणे नमो व्यक्ताय सूक्ष्माय प्रधानपुरुषाय च चतुर्विंशद्गुणज्ञाय गुणशङ्ख्यानहेतवे नमो द्विशीर्ष्णेतृभते चतुशृङ्गाय तन्तवे सप्तहस्ताय यज्ञाय त्रयी विद्यात्मने नमः नमः शिवाय रुद्राय नमः शक्तिधराय च सर्वविद्यातिपतये भूतानां पतये नमः नमोहिरण्यगर्भाय प्राणाय जगदात्मने योगैश्वर्यशरीराय नमस्ते योगहेतवे नमस्ते आदिदेवाय साक्षिभूताय ते नमः नारायणाय ऋषये राय हरये नमः नमो मरकथश्याम वपुषे अधिगदश्रिये केशवाय नमस्तुभ्यं नमस्ते पीतवाससे त्वं सर्ववरतः पुंसां वरेण्यवरदर्षभा अधस्ते श्रेयसे धीरा पाधरेणम् उपासते अन्ववर्तन्तयं देव श्रीश्च तत्पादपद्मयोः सबृह्यन्तयिवामोदं भगवान् मे प्रसीदता एतैर्मन्त्रैर्ऋषिकेशम् आवाहन पुरस्कृतम् अर्चये पाद्योपस्पर्शनादिभिः अर्चित्वा गन्तमाल्याध्यै पयसा स्नपये द्विभुम् वस्त्रोपवीधाभरण पाद्योपस्पर्शनैस्ततः गन्धधूपाधिपिश्चार्चेत् द्वादशाक्षर विद्यया श्रुतं पयसि नैवेद्यं साल्यन्नं विभवे ससर्पीसगुढं धत्वा जूहुयान्मूलविद्यया निवेदितं तद्भक्ताय ध्यात् भुञ्जीत वा स्वयं दत्वा च जपेतष्टोत्तरसथं स्तुवीतस्तु दिभिः कृत्वा प्रदक्षिणं भूमौ प्रणमे दण्टवन्मुदा कृत्वा शिरसि तक्षेषां देवम् बुद्ध सयेत्तदः द्वयवरान् पायसेन यथोचितम् भुञ्जीततैरनुज्ञात शेषं चेष्टसभाजितैः ब्रह्मचार्यतद्रात्र्यां स्वोभूते प्रथमेऽहनि स्नातशुचिर्यथोक्तेन विधिना सुसमाहितः पयसा स्नापयित्वार्चेत् यावत् व्रतसमापनम् भयो भक्षो व्रतमिदं चरेत विष्णर्चनादृतः पूर्ववज्जुयात् अग्निम् ब्राह्मणांश्चा विभोजयेत् एवं त्वहरः द्वादशाहम् पयोव्रतः हरेराराधनं होमम् अर्हणं द्विजतर्पणं प्रतिबद्धिनमारभ्य यावत् शुक्लत्रयोदशी ब्रह्मचर्यमधस्वप्नं स्नानं त्रिश्रवणं चरेद् वर्जयेतस धालापं भोकान् उच्चावचांस्तता अहिंसः वासुदेवपरायणः त्रयोदर्श्यामदो विष्णो स्नपनं पञ्चकैर्विभो कारये शास्त्रदृष्टेन विधिना विधिको विदैः भी पूजां च महतीं कुर्यात् पित्तशाट्यविवर्जितः चरुं निरूप्य विष्टाय विष्णवे श्रुतेन तेन पुरुषं यजेत सुसमाहितः नैवेद्यं चादिगुणवद्धत्यात्पुरुषतुष्ठिधम् आश्चर्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः तोषयेदृद्विजश्चैव तद्विद्धि आराधनं हरेः भोजयेत्तान्गुणवत् सदन्नेन शुचिस्मिते अन्यांश्च ब्राह्मणान् शक्त्या एतत्तत्र समागताः दक्षिणां गुरवे धत्यात् ऋत्विग्भ्यश्च यथार्हतः अन्नाद्येनावस्वपाकांश्च प्रीणयेत् समुपागतान् भुक्तवत्सु च सर्वेषु च विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीतसह बन्धुभिः नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् एतत् पयोव्रतं नाम पुरुषाराधनं परं पितामहेनाभिहितम् मया समुदाहृतं त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् आत्मना शुद्धभावेन नियतात्मा भजा व्ययम् अयं वै सर्वयज्ञाज्ञ सर्वव्रतमिति स्मृतं तपःश्शारमितं बद्रे धानं च ईश्वरतर्पणं तयेव नियमा साक्षात् त एव च यमोत्तमाः ये यज्ञो येन तुष्यत्यदोषजः तस्मादेतत् व्रतं ये ये तस्मादे भद्रे प्रयता श्रद्धया चर भगवान् परितुष्टस्ते वराना सुविधास्यति इति श्रीमद्भागवते महापुराणे अष्टमस्कन्ते अदितिपयो अदिपयोव्रतकथन नाम षोडशोध्याय सर्व गोपी का जीवन स्मरण गोविंद गोविंद सद्गुनाथ महाराज की जय